छत्रासे भारावाले या रंजो so <laughs> ी गाये आये नीता मे धा भीरोतिभिः भी आ सन्ता मा सन्तमाभिराभीष्टिभिः आ स्वावे स्वाह त्रिवेण्ड्रम् न सत्पाय भावा स्वा सोनावृधे डाभा ओ ये डा सचिभन्ना सचीवसो दिवानत्वम् देशस्य जनाः द्वन्द्व णा आगा ओ ये द्यासा वृदुघा उवायि गायद्रावे वसम् आ इन्द्रान्धे नो I don't know. बाब बाब um आट आट असाविदेवं असा विधे मङ्गस्मिन् इन्द्रो दिनशे Aindaha yeah, Aindaha nahitla rabadeham sura gona ragona ragona asma bhyam बेन jaya lehamasa aschavevaaha kuvaahi dan yeah. yeah. हौ हौ वा हौ ये शोणङ् भवे ममानामिन्द्राम् अस्मिन् भरेण समं वा जत सिन्वन्दमुग्रमे समाचो घ तम्बात्रा धना ने हो वा दिवाया ओ, ओ, ओ, ओ, ओ वा हो वा मूलब्रह्मा ने अयर सस्रावस्या इन्द्रम् आयो विश्वा मे स्वततारा दिवया भो वा ओप श्रोता होः आंसीक्षया तस्या स्वाणे सप्ता भूतो तदस्मै मन्द्वे सक्षाद्यात् द्रिव्यामुया दो धाः हयो षु आदधा वोषधेषु jambe bada इन्द्रा सह वा जाय तायि स इन्द्राः स इन्द्राः ईया आौवा एञय्या अयमृत्रेषु क्षयाः स्पर्धमानाः समानाः यञय्या ु तुरया त्ववन्ताय हवन्ते यञ्यायया यय्या हयं सूरसा तावयम वामोपज्वान् उपाज्वान् यञया यय्या हयम् विप्रासाः वा जाय तायि सैन्द्रा सैन्द्रः यय्यायया ययया हौ वा ईन्द्रावो हाहो पर्वताबहतार्थायिना पामेर्हवो आहो यथावरम् ओपा ्यान्यध्वरे सुवा ओधाङ्गिर्भिर्डया मदा वा ओपा आय इन्द्राय गाय कानि शीलसर्गाः सा इन्द्राय गाय राणे शीलसर्गाः कुवा कुवा इन्द्रायगाय राणि शेषसर्गाः अयाम् अयाम् आपप्रेरा या सग रस्य बुद्ध्नात् अवेदात् अवेदत यो क्षेणाय वाच्रि ौशजीभिः इहा एषन्तस्ता भाः पृथि ये भो दाः आखा यः सख्या मृत्योः इरपुरो येधौ हो वा अस्मिन् विषये प्रतनान् दे ध्यानौ हो वा ओहो ईरा हो जयन्ते धिघार्दस्याय राम स्वाहो मायो भो यज रामृद्ध्यां स जायिवा मार्घे नाः अर्चन्ते योः कामार्घे नः ब्रह्माणस्त्वा सदाग्रादो ब्रह्माणस्तो हय सदाग्रातवो उद्गम समिताया मेरे उद्गं शमो याय माहाय राहाय रायन्द्र गायत्रे नान्दर्काय रामाण स्वाहो शलक्रादाया वे वृधान् रामो द्रव्या सा सङ्गेराः राधे तमा उवा राधायुरा वाजानात् वाजम् भगि राभा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 dramayi hana a citvada hai tamandrayava ra dhastanna vidha अय राधाय अस्ति सुधा मदोये मृदोये रायम् वर्ये तमोहाय योद्युम् नैद्युम्नाभा तमोहाय सोमस्सोदस्साय प्रतोये आस्ति सुधापदे गर्मा ध द्रो वा गो वा हो ये प्रप्रवो वो वन्दीरा या इन्दे े राः नीच आो वा हो अर्चत प्रायमेधाः सौः अर्चत अर्चन्तपोत्रा घात रन्द्रा आशंसाय पार्धानम्ब रोनिधायि शक्रोया सोते सो नः तारणात् सा कियाय सोच javaspadiyam aananada syasaba ः सा angre ado divah dusho angah Father, deny yeah. it. राजा राजोस्ता लक्षो रान्द्रन्द्रजो स राजासो हयि क्रतो होये वारो हो ये ते देवः देय で... यना हरिषणीदृतं वो माघवानामुया इन्द्रङ्गिरो बृहतीभ्याणोदा वावे मङ्गलयस्य वरिवाहाय सद्धितिर्गीर्णो शाता हरिषन्दजनयो यथा पादे मर्यन्नासु ब्रह्म गवा नामो वा तया ई याः सोम जिवा सा देशे दे, दे, विश्वासारी दे, आनोषदा पाञ्च जनाय जा या धापदायम् मार्यम् मा हव मूदयाहम्मे शम्पुरोः तमुर्मायाम् इन्द्रङ्गेर्भाये मदता स्वाहार्णावम् ओ हा होय यस्य द्यावो न विचरन्ति मभि विप्रमचन दुरा येनाहा उभो वा ओपांसो मे शं माया सुराये दा सदै यस्य सुमायि न्द्रं वा वृत्या साये सोवृ तेभिः घृतव ता हि भोवानाम् अपि स्या पूर्वी पृथ्वीमदुगे शुपेश सा होयि या वा ष्काबायिते आचरे भूरि राये वा हिन्दु समग्रमुर्विया विभाति लितावती गो गणानाम् आयिषिया उर्वी पृथ्वी मृदुके स्वे सा वा पृथिवी वरुणा च धर्मणा आयष्कभि आधारे भूरि राये धास उवाह इन्दुसमुद्रमुर् विभाति उभे यादिन्द्रा रो धा राषा उवाह एवा महन्त सम्रोह चन्दर्षणाये देवी जनिक्रिया जी जानाय भद्रोः जानित्रियजा न्दायिने पितुमदाव य कावो वा स गर्भा निरान्स्वानाः अवस्याः प्रेषणम् वा जा दक्षायिनाव त्वन्द्म् सख्यायुवाय इन्द्रा सुरे सु सोमे हो हा होय ऋतुम्बुशौ ध्याम् हि दायिवार्धा गुणौधियाम् विदायवाधा सदक्षस्या निषु सोमेषु ऋतो गुणाय शौद्धियाम्वाग्धा सदक्षस्या महां हा महा ayata avo purohuta prustha avo indranga ibhi tava isha maha avo diva ैः तविषम् आ देवाः सातवो वा ओ तमोहाभिप्रगायत पुरो उत्तमम् पुरोष्टोताम् इन्द्राङ्गायिर्भिः ताभिषा पुरो त पुरो पुरं रोता आङ्गेर्भ्यस्तविषमा विवासा आगा तावायिशामा ुसायम् भूलोका कृत्रमुद्रारि वो हरिः स्रायाः ओन्ते होई हो मालङ्घिणीमासी ऋषाहो न वृक्षो सा गतमन्त्रि वा श्रिया र्यो अन्धा सा आयिवाहिवे रास्तवताय सा दा वे धा ओ हो वा हो ये रा ये वि अत्र <coughs> basit hai au ho ho स्वा उपमान्देवाताये उपमान्दे पाताय यद्धंसि वृमायसा पा सा पाताये होये राच्छा ्यादा रासा वनोमावस्था सामान्या वा दृढाधीव्याः मयो वा नाो हरि आयाहि आया धवा yau riya tai indrena sayava mari krishna mad thi shobhada asaira Jaka, Ravad-dhanam, Vedava, Jinnon-jaasa, Rishvyanish-tasayam, Acha-na-hano, Swarauho, Jiyon, Yedha, Itkhaisho, Mayin-mala, Jaka, विष्टा वा चिह्नादाः सा दिव्यानि सार्यम् चाङ्गो हि हानोः स्वाराच्यम् देभिः ब्रह्महत् स्वाः जायिषु ऊतिमभे वा हायि सा वा जायिषु घ्राणो वा मायिषो हायि behava mahari tava jai subhrano hava tai shohayi indramada ro niyam sadao ai indra namanghite savao haana hritranjaya bao atta े हि रतायुधानामद ज्योता हरि क्रह्णकम्बसाहौ दाधा अस्मा इन्द्रा भासौ दाधा अक्षन्न मद राहि अप्रियाधु शाता अस्तोषदस्वभाणवः विप्राणावियामते यो जानो भाहि द्रादा पोषो शृणु हे गिरः ि वा कालानस्तु नार्तावतः कर इद ताया सायेत् योजानु वायि द्रादा सुवान्ता राव सुवर्णो धाव वाते दिवि नवो हि राव ज्ञानायि माया पादम्बिन्दा वा, वा, वा हि चन्द्रमा नावो हिरणे मयपादं विन्द विद्योतो वित्तम् भो ये, ये मावो सारोदायि ओ ये रा चन्द्रामाहा सुवन्तारा सुपर्णोधा मातारिदा विद्युताः विद्रङ्घो ये माहो सरोदासायि भो ये डा चन्द्रमाप्सु वा तरा स्वर्णो धा वा वेदायिवि नवाहो य पादम् विन्दुद्योता वित्त मा चारो दासा ओन्द्रो माशमन्तरा हो सुवर्णो धावयि वा ए ैरण्यनायि माया हो वायि द्योता हो वा वित्तं मे सरोदासाय devani zee samdida ya daaye hiam dhavi sham stotra bhya हरिहार netya <sweat> Tony Hayek दृश्यमर्या ेषा निध्यामाौ हो वा तावोहायि अग्ने ओमाध्य अश्वन्नस्तो माये जम्ना भाद्राहो स्पेषम् विद्या वेदस्वा स्वर्गाङ्गार्वा darun <laughs> sudona ृत आस्तो भताय श्रुतो वास आ इन्द्रा ओपा रावाः आ इन्द्राय वृत्रहान्ता माया पाइप्रदायगासङ्गायाता ध्याः उपशा चेदे अग्निः गायदे आम्याः वा सुमद्रथाचेयिया नायश्चायि गायि दे हौ हो औह्या वा ohova e sumadradaha ognai tonova imama tahamaha udatradasiva bhuvaha siva bhuvaha barova शिवो भुवरा ओहो वायो हयि अग्ने ओई हयि तन्नो चित्रः अग्निर्महो नाम दाधाचित्राः ना अग्निर्महो नाम दाधा विश्वस्य प्रष्टो भावा यदि वेह नो मा, वा, यदि वे हा मा उो वानाम् उहो यि विश्वस्य यदिवेहा आन्द्रा हिन्दुसृत्या न्ताः धीतो याहो ओ अयम् सहस्रमाणावः ऋषाः कवे नाम तिर्जो तिर्विधामाध्ना सामायितेरुषसः सा मायिरायात् ओ स चेतुसः स्वासरे मन्युवान्ताः वो वा सीताः गोराो वा भा हेन्द्रियायुवनाः आरावादः नायमच्छा विदधा वा सत्पादिः कामहेद्वाय सन्ताः सूता यशो वा पुत्रा सोना वा जासायि होयि ददा नमप्रदाय स्को तां सवांसायि भूरि मन्धिष्ठो गिर्भिरा साया राये होयि नो शब्दो या ऋणाय माहे इन्द्रावाहयोः ऋणीमायित्राणाविवा स्वादायि वासन्दायनाः ह्यासायि अधप्रणोनमुपया च र सा युग् नाः सा यो वाया रुचारिण्या पुरानः विश्वा द्वायषा ताहि ये है बाईरा क्वाभोहाई अवित्यन्दे एवं सरितारम sc 77 I'm going to cry. ्रा न जाता वेदासम् यावो द्वयासो वद्धारः देवो देवाची या कृपा मृता च विभ्राष्टमणसोक्रा आवोहावः आहोहावः आहोहावः आहोहावः अग्निष्टवदि रादिदाहाये येह वैष्णसंमतृनन्धा येह वैष्णसंमतृनन्धा येह वैष्णसंमतृनन्धा यज्ञायि प्रातिदाहति हावो होवो अग्निंहो तारमान्ने दास्वन्ध्वम् आसो सोनुं सासो जाता वेदासम् विप्राम् न जाता वेदासम् यावो द्वयासो वध्वरः देवो देवाजिया कृपा घृता स बिभ्राष्टमनसो ग्राहसोजिष आजो वानाः सद्भिषः विघ्नायिः प्रातीता ये नन्दह ये बे स्वर्ण नेत्र नन्दह ये बे स्वर्ण नेत्र नन्दह ताह पतनाह इन्द्र दराव अवइन्द्राह प्रथमं भू विन्द देवी प्रवाह चियन्द्रतम यो देवास्य तव सा प्राणासो ऋणन्नापः भोवो विश्वा अभ्यदायि वामो जीदेनोर्जुः पिधायि दिशा indrah prathamam po priya devi prava chiyandredam yo devasya samasa pra rinah zo rinanna pah buho vishwam abhyadai vamojasa bidayodam सादाघ्रादोः पिता ईषावो वा हो